वैशम्पाय न उवाच पुत्रं काश्यपेन निशाम्यतु काश्यपात् प्राप्य चानुज्ञाम् मुमुदे च शकुन्तला कण्वस्य वचनम् श्रुत्वा प्रतिगच्छेति चासकृत् तथेत्युक्त्वा तु कण्वम् च मातरम् पौरवोऽब्रवीत् किञ्चिरायसि मातस्त्वम् कमिष्यामो नृपालयम् एवमुक्त्वा तु ताम् देवीम् दुष्यन्तस्य महात्मनः अभिवाद्य पादौ गन्तुमैच्छत् स शकुन्तला च पितरमभिवाद्य कृताञ्जलिः प्रदक्षिणीकृत्य तदा पितरम् वाक्यमब्रवीत् अज्ञानान्मे पिता चेति दुरुक्तम् वापि चानृतम् अकार्यम् वाप्यनिष्टन् वा क्षन्तुमर्हति काश्यप एवमुक्तो नतशिरा मुनिर्नो वाच किञ्चन मनुष्यभावात् खण्वोऽपि अभक्षान् वायुभक्षांश्च क्षीर्णपन्नाशनान् मुनीन् फलमूलाशिनो दान्तान् व्रतिनो जटिलान् मुण्डान् वल्कलाचि न संवृतान् समाहूय मुनीन् कण्वः कारुण्यादिदमब्रवीत् मया तु लालिता नित्यम् मम पुत्री यशस्विनी वने जाता विवृद्धा च न च जानाति किञ्चन आश्रमेण पथा सर्वैर्नीयताम् क्षत्रियालयम् तथेत्युक्त्वा सर्वे प्रातिष्ठन्तमहौ जसः पुरस्कृत्य दुष्यन्तस्य पुरम् प्रति गृहीत्वामर गर्भाभम् पुत्रम् आजगाम विदितात्वनात् सुभ्रूर्दुष्यन्तम् विदिता त्वनात् अभिश्रुत्य च राजानम् विदिता च प्रवेशिता सह तेनैव पुत्रेण सर्वे आश्रमं पुनरागताः पूजयित्वा यथा न्यायम् अब्रवीच्य शकुन्तला अभिवादय राजानम् पितरम् ते दृढव्रतम् एवमुक्त्वा तु पुत्रम् स्तम्भमालिङ्ग्य राजानम् प्रसीदस्वेत्युवाच सा राजानं राजानम् अभिवाद्य कृताञ्जलिः हर्षेणोत्फुल्लनयनो राजानम् चान्ववैक्षत दुष्यन्तो धर्म बुद्ध्या तु चिन्तयन्नेवसोऽब्रवीत् दुष्यन्तोवाच किमागमनकार्यम् ते ब्रूहित्वम् वरवर्णिनि करिष्यामि न सन्देहः विशेषतः शकुन्तलो वाच प्रसीदस्व महाराज वक्ष्यामि पुरुषोत्तम अयम् पुत्रस्त्वया राजन् यौवराज्येऽभिषिच्यताम् त्वया ह्ययम् सुतो राजन् मय्युत्पन्नः स्रोपमः यथा समयमे तस्मिन् वर्तस्व पुरुषोत्तम यथा मत्सङ्गमे पूर्वम् यः कृतः स्मरस्व महाभाग कण्वाश्रमपदम् प्रति सोऽथ श्रुत्वैव तद्वाक्यम् तस्या राजा स्मरन्नपि अब्रवीन्न स्मरामीति कस्य त्वम् दुष्टतापसि धर्म गच्छ वा तिष्ठ वा कामम् यद्वापीच्छसि तत्कुरु सैव तपस्विनी निःसङ्गेव च दुःखेन तस्थौ स्थूणेव निश्चला सम्रम्भामर्षताम् राक्षी स्फुरमाणौष्ठसम्पुटा कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत आकारम् गूहमाना समीरिता तपसा तेजो धारयामास वै सा मुहूर्तमिव भर्तारमभिसंप्रेक्ष्य, दुःखामर्श समन्विता भर्तारमपि सम्प्रेक्ष्य क्रुद्धावचनमब्रवीत् जानन्नपि महाराज कस्मादेवम् प्रभाषसे न जानामीति निशङ्कम् यथान्यः प्राकृतो जनः वेद सत्यस्यैवानृतस्य च कल्याणम् वद साक्ष्येणमात्मानमवमन्यथाः योऽन्यथा प्रतिपद्यते किम् तेन चौरेणात्मापहारिणा एकोऽहमस्मीति च मन्यसे त्वम् न यो वेदिता कर्मणः पापकस्य तस्यान्तिके त्वम् वृजिनम् करोषि धर्म एव हि साधूनाम् सर्वेषाम् हितकारणम् नित्यम् मिथ्याविहीनानाम् नानां ना च दुःखावहो भवेत् मन्यते पापकम् कृत्वा न कश्चिद्वेत्ति मामिति विदन्ति चैनम् देवाश्च यश्चैवान्तरपूरुषः आदित्य चन्द्रावनिलानलौ च द्यौर्भूमिरापो हृदयम् यमश्च अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् हृदिस्थितः क्षेत्रज्ञो यस्य तुष्यति न पुरुषस्य दुरात्मनः तम् यमः पापकर्माणम् वियातयति दुष्कृतम् योऽमन्यात्मनात्मानमन्यथा प्रतिपद्यते न तस्य देवा श्रेयांसो यस्यात्मापि न स्वयम् प्राप्तेति मामेवम् मावमंस्थाः पतिव्रताम् अर्चार्हाम् नार्चयसि माम् स्वयम् भार्यामुपस्थिताम् किमर्थम् माम् प्राकृतवदुपप्रेक्ष्यसि संसदि न खल्वहमिदम् शून्ये रौमि किम् न शृणोषि मे यदि मे याचमानाय या वचनम् न करिष्यसि दुष्यन्त शतथा मूर्धा ततस्ते भार्याम् पतिः सम्प्रविश्यस यस्माज्जायते पुनः जायायास्तद्धि जाया त्वम् पौराणाः कवयो विदुः प्रजायते तत्तार इति सन्तत्या पूर्वप्रेतान् पितामहान् पुन्नाम्नो नरकाद् यस्मात् पितरम् त्रायते सुतः तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते अथ पौत्रस्य पुत्रेण मोदन्ते प्रपितामहाः सा गृहे दक्षा सा प्रजावती सा पतिप्राणा सा पतिव्रता अध्वम् भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा भार्यामूलम् त्रिवर्गस्य भार्यामूलम् तरिष्यतः भार्यावन्तः क्रियावन्तः स भार्या गृहमेधिनः भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रीयान्विताः सखायः प्रविविक्तेषु भवन्त्येताः प्रियम् वदाः पितरो धर्म तस्य मातरः कान्तारेष्वपि विश्रामो जनस्याध्वनिकस्य वै यस्य परागतिः संसरन्तमपि प्रेतम् विषमेष्वेक पातिनम् भार्यैवान्वेति भर्तारम् सततम् व्यापतिव्रता प्रथमम् संस्थिता भार्या पतिम् प्रेत्य प्रतीक्षते पूर्वम् नृतञ्च भर्तारम् पश्चात् साध्व्यनिगच्छति एतस्मात् कारणात् राजन् पाणिग्रहणमिष्यते यदाप्नोति पतिर्भार्यामिह लोके परत्र च आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः तस्माद्भार्याम् नरः पश्येन्मातृवत् पुत्रमातरम् अन्तरात्मैव सर्वस्य पुत्र नोच्यते सदा गतिरूपम् च चेष्टा च आवर्ता लक्षणानि च पितॄणाम् यानि दृश्यन्ते पुत्राणाम् सन्ति तानि च तेषाम् शीलाचार गुणास्तत्सम्पर्कात् शुभाशुभाः भार्यायाम् जनितम् पुत्रमादर्शेष्विव ह्लादते जनिता प्रेक्ष्य स्वर्गम् प्राप्येव पुण्यकृत् दह्यमाना मनो ह्लादन्ते स्वेषु धर्मार्ताः सलिलेष्विव विप्रवास कृशादीना न रामलिनवाससः तेऽपि स्वदाराम् स्तुष्यन्ति दरिद्रा धनलाभवत् सुसंरब्धोऽपि रामाणाम् न कुर्यादप्रियम् नरः रतिम् प्रीतिम् च धर्मञ्च तास्वायत्तमवेक्ष्य आत्मनोर्धामिति श्रौतम् सारक्षति धनम् प्रजाः शरीरम् लोकयात्राम् वै धर्मम् स्वर्गम् ऋषीन् पितॄन् आत्मनो जन्मनः क्षेत्रम् पुण्यम् रामाः ऋषीणामपि का शक्तिः रामामृते प्रजाम् प्रतिपद्य यदा सूनुर्धरणीरेणु गुण्ठितः पितुराश्लिष्यतेऽङ्गानि किमस्त्यभ्यधिकम् ततः स त्वम् स्वयमभिप्राप्तम् साभिलाषमिमं सुतम् प्रेक्षमाणम् कटाक्षेण किमर्थमवमन्यसे